ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते मापुराणे सप्तमस्कन्धे एकोनचत्वारिंशोऽध्यायः हिमालये उवाच देवदेवी महेशानि करुणासागरम्बिके ब्रूहि पूजाविधिं सम्यक् यथा वत् अधुना नियम् श्रीदेवी उवाच वक्षे पूजाविधिं राजन् अम्बिकाय यथा प्रियं। अत्यन्त श्रद्धया सार्धं शृणु पर्वतपुङ्गवे द्विविधाय मम पूजा स्यात् बाह्या चाभ्यन्तरपि च बाह्यापि द्विविधा प्रोक्ता मूर्तिभेदेन भूधरे वैदिकी वैदिकैः कार्य वेददीक्षा समन्वितैः तत् तन्त्रोक्तदीक्षा बद्धि तु तान्त्रिकैः संस्कृता भवेत् इत्थं पूजा रहस्यं च न ज्ञात्वा विपरीतकम् करोति यो नरो मूढ सपतत्येव सर्वथा तत्र वैदिके प्रोक्ता प्रथमा वदाम्यहं यन्मे साक्षात् परम् रूपम् भूधरे नसि भूधर अनन्तशिर्यनयनम् अनन्तचरणं सर्वशक्ति समायुक्तम् प्रेरकम् यत्परात् परम् पूजये नित्यम् न मे ध्यायेत् स्मरेदपि इत्येतत् प्रथमाचारः स्वरूपम् कथितम् नगरे शान्तस्समाहितमनः दम्भङ्गर्वर्जितः तत्परो भवत्याधि तदेव शरणम् व्रज तदेव चेतसा पश्य जप ध्याय च सर्वदाय अनन्यया प्रेमयुक्ते भक्त्या मद्भावमाश्रितः यद्पो राणै मामेव परितोषय इत्थम् ममा नो गृहसो मोक्षसे भवबन्धनाय मत्परा ये मदासक्ते चित्ता भक्तवरामतः पति याने भव धर्म उद्धराम्यचिरेण तु भक्ति भाव वुन क्या कवल कर्म भी धर्म सक्ति भक्तियामृतिभ्या मुदित यम प्रकर्ति अन्ेन योज धर्म धर्मा स उच्च सर्वज्ञात् सर्वशक्ते सर, च मत्तो वेरसमुत्थितः अज्ञानस्य मम अभवत् अप्रमाणान च श्रुतिः स्मृतयश्च श्रुते रसम् गृहीत्वैव च निर्गतः मन्वादीनाम् श्रुतीनाम् च ततः प्रामाण्यमिष्यते क्वचित् कदाचित् तन्त्रा कटाक्षेण धर्मं वदन्ति त्वं च तु नैव ग्राह्योति वैदिकैः अन्येषां अज्ञानं प्रभवत्ततः अज्ञानदो च दुष्टत्वात् श्रिए लोके हन्यकेशान्ञा सा श्रुति कथम रुभिद्या मददारण ब्रह्म क्षत्रीय दात्र मैं सृष्टा तेयम रे शुति यदा यदा हि धर्मस्य ग्लानिर्भवति भूधरे अभ्युत्थानमधर्मस्य तदा भेषन् विभर्म्यहम् देवदैत्य विभागश्च अप्यतवा भवन्नृपे येन कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा सम्पादिता तु नरका सु यश्रवणाद्भवेत् को वेद धर्मम् उज्झित्य धर्मम् अन्यम् समाह्रयेत् राजा प्रवास ये देशान् नियादेतान्न धर्मिणः ब्राह्मणेन च सम्भाष्यः पञ्चग्राह्य न च द्विजी अन्यानि यानि शास्त्राणि लोकेऽस्मिन् द्विविधानि श्रुति स्मृति विरुद्धानि तमसान्येव सर्वे वामम्बकापालकं दैव कौलकम् भैरवगमः मोहनार्थाय प्रणीतो नान्यहेतुकः दक्ष चापात् द्रवो शापत् दधि वेदमार्ग बहिष्कृतः तेषाम् उद्धरणार्थाय सोपानक्रमतश्च वैष्णवा चैव वै, सौरशाक्ता तथैव च गणपत्या प्रणीतः शङ्करेण तु तत्र वेद विरोध एव क्वचित् वैदिकैस्तग्रहे दोषो न भवत्येव करेचित् सर्वथा वेदभिन्नाथे नाधिकारी द्विजो भवेत् वेदाधिकारेण तु भवेत् तत्राधिकारवान् तस्मात् सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् धर्मेण सहितम् ज्ञानम् परम् ब्रह्म प्रकाशयेत् सर्वेक्षणाः परित्यज्य मामेव शरणं गताः सर्वभूतदया बन्धो मानाहङ्कारवर्जिताः मच्चित्ता मद्गतप्राणा मत्था न कथन सन्ध्यासिनो वनस्थाश्च ब्रह्मचारिणः उपासन्ते सदा भक्त्या योगम् ऐश्वर्यसन्नितम् तेषां नित्याभियुक्तानाम् अहम्भज्ञानजम् तमः ज्ञानसूर्यप्रकाशेन नाशयामीन संशयः इत्थम् वैदिकपूजाय प्रथमाय नगाधिपे स्वरूपमुक्तम् संक्षेपात् द्वितीयाय अथो गुवे मूर्तो वा तथा सूर्येन्दुमण्डले जलेथवा बालिङ्गे यन्त्रे वापि महापटे तथा श्री हृदयाम्भोजे ज्ञात्वा देवीम् परात्पराम् सगोणाम् करुणापूर्णाम् तरुणीं मरुणा तुणां सौन्दर्यसारथे मां तां सर्ववयव शृङ्गाररसम्पूर्णां सदा भक्ताराम् प्रसाद सुमुखे अम्बां चन्द्रखण्डे शिखण्डिलीं पाशाङ्कुशवरा भीति धरामानन्दरूपिणीम् पूजयेदुपचारे च यथावृत्तानुसारतः यावगान्तरपूजायाम् धिकारो भवेन्न तावद्बाह्यामिमां पूजां श्रये जाते तु सां त्यजेत् आभ्यन्तरा सु पूजा सा तु संविल्लयः स्मृतः संविदेव परं रूपम् उपाधीरहितं मम अतः निराश्रयम् संविद्रूपादि रिक्षन्तु माया जगते मायामयं जगत् अथ नाशाय साक्षिमात्मरूपिणीम् भावयेन् निर्मनस्केन योगयुक्तेन चेतसाय अतः परं बाह्य विस्तार कथ्यते मया सावधानेन मनसा शृणु पर्वतसत्तमये इति श्रीमद्देवी भागवते महापुराणे अष्टादश संहितायां सप्तमस्कन्धे देवी गीतायां श्रीदेव्या पूजाविधि वर्णनं नाम एकोनचत्वारिंशोऽध्यायः श्री, एकोन श्री जगदम्बिकायार्पणमस्तु